ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे एकादशोऽध्यायः जन्मेवाच वसिष्ठेन च सप्तोऽसौ शङ्को नुपते स्तुतः कथं चापाद्विक्तः तन्मे ब्रूहि महामते वासवाच सत्यवत तथा शप्तः पिशाचवान् तस्मिन् एवाचेतसौ देवी भक्तिपरायणः कदाचिन्नपथि तत्र जप्ता मन्त्रम् न वा क्षरम् होमार्थं ब्राह्मणान् गत्वाच भक्तितः भूमिदेवाशृणोम् वै रुत्वियो ऋत्विजो मम सर्वेत्र भवन्तः प्रभवन्तु जपस्य च दशान्तेन ओमकार्यो विधानतः भवद्भिः कार्यसं वेदभिद्भिः कृपापरैः सत्यावतोऽहं नृपतेः पुत्रो ब्रह्म पिदाम्बरः कार्यम् मम विधातव्यं सर्वथा सुखहेतवे तच्छ्रुत्वा ब्रह्मणा तत्रोचो नृपते श्रुतम् च तम् गुरुणा प्राप्तम् पिशाच तं तयाधुना या गार्होषि तस्मात् पिशाचत्तम् मनोप्राप्तम् सर्वलोकेषु गर्हितम् प्रातुवाच तन्निशम्येव च तेषाम् राजा दुःखमवापः दिग्जीवितम् विधम् मेद्य किम् करोमि वेस्थितः पित्रा चाहम् परित्यक्तः शप्तश्च चा गुरुणा भृजम् राज्याभ्रश्च पिशा चत्तम् नुप्राप्तः करोमि किम् तदा पृथोत्तरम् कृत्वा सिताम् काष्ठमजः सस्मार चण्डिकाम् देवीम् प्रवेशम् अनुचिन्तयन् स्मृत्वा देवीम् हमयम् सिताम् प्रज्वताम् पुरः कृत्वा स्नात्वा प्रवेशार्थम् स्थित प्राञ्जलिरग्रतः ज्ञात्वा मत्तु कामं महीपतिम् आजगामा तदाकाशम् प्रत्यक्षं तच्च जाग्रतः दत्त्वा दर्शनं देवि तम् उवाच नृपात्मजं सिंहारूढा महाराज मेघगम्भीर य देवी वाच किम्ते तै व्यवसि साधो उताशे मातनुं जजय स्थिरो भयव महाभगे पिता ते जरसान्वितः राज्यं दत्त्वा वदे तुभ्यं गन्तास्ति तपसे किले विषादं त्यज वीरे परश्व हि भूपते नेतुं तम् आगमिष्यन्ति शचिवश्च पितुत्सवे मत्प्रसादात् च त्वम् ृपासरे जित्वा कामम् ब्रह्मलोकम् गमयिष्ये च निश्चयः इत्युक्त्वा तन्तरा देवी तत्रैवान्तरधीयत राजपुत्रो विरमितो मरणः त्वा कर्ततः अयोध्यायां तदागत्य नारदेन महात्मना वृत्ता कथित सर्व राज मनोद्यम खेद मनसी शुशोच बहुधा नृपिवान्ना धर्मात्मा पुत्र शोक परित जबदे अतुग्रम पुत्रस्य मम चेतीक्तो मने पुत्र सत्यव्रो मम आज सज्ज राज पे विज्ञान धनह न वसिष्ठेन तथा पिछाच सदृशक स्वज्य दुःखेन सन्तप्तः प्रवेष्टुञ्च हुताशनम् उद्यतः श्रीमहादेव्या निषिद्ध संस्थितः पुनः तस्मात् गच्छन्तु तं शीघ्रम् ज्येष्ठपुत्रम् महबलम् आश्वास्य वचने यत्र तरसेवानयन्ति हे अभिचित्य सुतम्राजे औरसंपालनक्षमम् वनं यास्यामि शान्तोऽहम् तपसे कृतनिश्चयहे इत्युक्त्वा मन्त्रिणः सर्वान् प्रेषयामास पार्थिवः तस्यैवानयनासं हि प्रीति प्रवर्णमानसः ते गत्वा तं च माश्वास्य मन्त्रिणः पार्थिवात्मजम् अयोध्यायाम् नपूर्वं समानयन् दृष्ट्वा सत्यवतं राजा दुर्बलं मरिनाम्बरम् जकाजूट धरं क्रूरम् चिन्ता चिन्तयत् किं कृतं निश्चरं कर्म मया पुत्रो विवासितः राजार्हचाति मेधावी जानतः धर्म निश्चयम् संचिंत मनस सामिंग महीपति आसने पे सीष्ट सुत राजेम पूर्व वाचहे प्रेम वाच प्रेम गद्गदया गाच नीतिशास्त्र विचार दुत्र धर्मे मे कार्य मानवीय मुखोद्भवाय यागतं धनं ग्राह्यं रक्षणीयः सदा प्रयः न सत्यं क्वापि भक्तव्यं न मार्गे गमनं क्वचदय चेष्टप्रतं प्रकर्तव्यम् कूचीया तपश्चिनः कन्तव्या दस्य भक्रोराय इन्द्रियाणां तथा जय कर्तव्यकार्यसिद्ध्यर्थम् कन्या पुत्र सदैव हि मन्त्रस्तु सर्वथा गोप्यः कर्तव्यः सचिवैः सह नोपेक्षोऽपितकृतिना रिपु सर्वात्मनासुते, सुत न विश्वसेत् परा सक्तम् सचिवं च तथा नतं चारास्सर्वत्र योक्तव्यः शत्रुमित्रेषु सर्वथा धर्मे मतिसदा कार्या स्थानं दद्याच्च नित्यशः वादो न कर्तव्यो दुष्टसृङ्गं च वर्धेत अष्टव्याविधि विविधायन्यः पूजनीया महर्षयः न विश्वसेत् श्रियं क्वापि शयनं ज्योतरतं नरम् अत्यादरो न कर्तव्यो नृपयां कदाचन तथा रगेये नूनं च स्वयं तद्विमुखो भूयात् प्रयातेभ्यश्च रक्षयेत् ब्राह्मे कर्तव्यम् उत्थानं सर्वथाय स्नादिकं सर्वविधिं विधाय विधिवद्यथाय पराशक्तेः परां पूजाम् भक्त्या कुर्यात् सुदीक्षितः पुत्रे तज्जन्म साफल्यं पराशक्ते पदाचनम् कृत्वा क्रत रमः देवे पादजलम् पिबन् न तु जननि न धातो गर्भे गच्छे देति विनिश्चयः सर्वम् दृश्यं महादेवी दृष्टा साक्षी च शैवैः इति तद्भावे भरितः कृत्वा नित्यविधिं सम्यक् कन्तव्यं सदसि द्वयं समाहूय च प्रष्टव्यो धर्मशास्त्रविनिर्णयः सम्पूज्य ब्राह्मणान् पूज्यन् वेद वेदान्तपारगम् गोभूरण्यादिकं च देयं पात्रेषु सर्वदा अविद्वान् ब्राह्मणः कोऽपि नैव पूज कदाचन आहारादधिकम् नैव देयं मूर्खाय करीचित् न बालु भा त्वया पुत्र कर्तव्यम् धर्मलङ्घनम् अतः परं न कर्तव्यम् क्वचिद्भिप्रावमाननम् ब्रह्मणः भूमिदेवा च माननीयः प्रयत्नतः कारणम् क्षत्रियाणां च द्विजा एव न संशयः अध्योऽग्नि ब्रह्मण क्षत्रम् आत्मनो लोहमुत्थितम् तेषाम् सर्वत्र गम् तेजः सा तु यो निषु शाम्यते तस्मात् राज्ञा विशेषेण दानेन विनयेनैव सर्वथा भूतिमिच्छितः दण्डनीति सुधार्मशास्त्रानुसारतः कोशस्य सङ्ग्रहकार्यो नूनं ध्याय गतस्य इति श्रीमद्देवी भागवते महापुराणे चादृश संहितायां सप्तमस्कन्धे सत्यव्रताय राजनीत्योपदेशवर्णनं नाम एकादशोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु